श्रीहरये नमः अतद्वात्रिंशोऽध्यायः श्रीशुक उवाच इति गोप्यप्रगायन्त्य प्रलभन्त्यश्च चित्रधां रुरुदुसुस्वरं राजन् कृष्णदर्शनलालसाः तासामाविरभूचौरे स्मयमानमुकाम्बुजः पीताम्बरतरसृग् साक्षान्मन्मतमन्मतः तं विलोक्या प्रेष्टं प्रीत्युत्पुल्लदृशो उत्तस्तुर्युगबत्सर्वास् उत्तस्तुर्युगभत्सर्वास्तन्वः प्राणमिवागतं काचित् कराम्बुजं सौरेर्जगृहेऽजलिना अंसे चन्दनरूषितं काचिञ्जलीनाग्रहणात् तद्वीताम्बूलशर्वितम् एकाददङ्ग्रिकमलं सन्तप्तास्तनयोरधात् एका भृगुटिमाभत्य प्रेमसंरम्भविह्वलां ज्ञीवैषत्कटाक्षेपे सन्तष्टदशनश्च दा अपरानिमिषदृग्भ्यां जुषाणा तन्मुखाम्बुजम् आपीतमविना तृप्य सन्तस्तच्छरणं यथा तं कासिन्नेत्ररन्ध्रेण कृधिकृत्य निमील्य च सर्वास्था केशवालोक परमोत्सवनिर्वृताः जगुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः व्यरोचदाधिकं ताध पुरुषिभिर्यथा धाय काळिन्ध्या निर्विश्य पुलिनं विभुः विकसत्कुन्दमन्धार सुरभ्यन्निलषट्पदं चरञ्चन्द्रां सुसन्दोह ध्वस्तदोषाधमः शिवं कृष्णाया हस्ततरलाचित कोमलबलूगं तद्दर्शन आक्लाभितोत मनोरथान्तं श्रुतयो यथायुः स्वैरुद्धरीयैकुचकुङ्कुमाङ्कितये अचीकुलृपनासनमात्मबन्धवे तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृतिकल्पितासनः चकाश गोपि परिषद्गतोऽर्चितस् त्रैलोक्यलक्ष्म्येकपदं वपूर्धदत् सभाजयित्वा तमनङ्गदीपनं सखासलीले क्षणविभ्रमब्रुवा भचदो नो भजन्त्येक एक एतत् ये विपर्ययं नो भयांश्च भजत्येग ए तन्नो ब्रूहि साधु भोः श्रीभगवानुवाच मितो भजन्ति ये सख्य स्वार्थैकान्तोद्यमाहिते न तत्र सौहृदं धर्म स्वार्थार्थं तद्धि भजंत्य भजत ये वै करुणा पितरो यत धर्म निरभवाद्र सौहृद्य भज केचि भजत कुत्म आम अक्रुद्जा गुरुद्रुगहा नाकं तो सक्यो भजदि झनूं भजां यमीक्षाम् अनुवृत्तिवृत्तये यथा न नद... यथा धनो लप्तधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद शिवं मदर्थोज्जितलोकवेद स्वानां हि वो मय्यनुवृत्तये भलाः मया परोक्षं भजता तिरोहितं मा सूयितुं मार्हत तत्प्रियं प्रियाः नापारयेऽहं निरवध्य संयुजा स्वसाधुहृत्यं विबुधायुषापि वहा यामा भजन् दुर्झरके गेहशृङ्खला संवृश्च तद्वप्रदियातु साधुना इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीसान्त्वनं नाम द्वारिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजकी जय